गरुडपुराणम् आचारकाण्डम् अध्यायम् 198 एण्ड् नैण्टि भैरव उवाच नित्यक्लिन्ना मधो वक्ष्ये त्रिपुरां भुक्त्रिमुक््रीदाम् ॐ ह्रीं आगच्छ देवि ऐं ह्रीं ह्रीं रेखाकारणम् ॐ ह्रीं क्लेदिनीभं नमः मदनक्षोभिणा तथा ऐं यं यं क्रीं वा गुणरेखया ह्रीं मदनान्तरे च ऐं ह्रीं ह्रीं च निरञ्जनावागदि वेगवदि महा वेगवदिमहाप्रेदासनाय च पूजयेद ॐ ह्रीं क्रैं नैं क्रैं नित्यं मदद्रवे क्रीं नमः ऐं ह्रीं त्रिपुरायै नमः ॐ ह्रीं क्रीं पञ्चमवक्त्रम् ॐ ऐं ह्रीं ह्रीं च तथोत्तरम् ऐं ह्रीं दक्षिणमूर्ध्वं वक्त्रं तु पश्चिमम् ॐ ह्रीं पाशाय ह्रीं अङ्गुशाय ऐं कपलाय नमः आद्यम् भयं ऐं ह्रीं च तथा शिरस्तथा शिखायै कवचे ऐं ह्रीं क्रीम् अस्त्राय फट पूर्वे पामरूपाय असिताङ्गाय भैरवाय नमो ब्रह्माण्ण्यै दक्षिणे चैव गन्धाय वै नमः रुरुभैरवाय महेश्वर्य वा आवाहयेद् तथा पश्चिमे चण्डाय वै नमः कौमार्यै चोत्तरे चोल्काय क्रोधाय नमः वैष्णव्यै अग्निकोणे अघोरायोन्मत्तभैरवाय दिवाराह्यै रक्षकोणे साराय कपालिने भैरवाय माहेन्द्रियै वाय। वायुकोणे जलान्धराय भीषणाय भैरवाय चामुण्डायै ईशकोणके वडुगाय संहारञ्चण्डिकाञ्जप्रपूजयेद दे। रदिप्रीतिकामदेवान् पञ्चबाणान्यजे दधा ध्यानार्चना जप्य कोमा देवी सिद्धा च सर्वदा नित्या च त्रिपुरा व्याधिं हन्या ज्वालामुखीक्रमाद ज्वालामुखीक्रमं वक्ष्ये सा पूज्या मध्यदशुभा नित्यार्णामदा नित्यारुणामदनातुरा महामोहाप्रकृत्यपि महेन्द्राणी च कलनाकर्षिणी भारती तथा ब्रह्माणि चैव माघेशी कौमारी वैष्णवी तथा वाराही चैव चा माघेन्द्री चामुण्डा चापराजिदा विजया चाजिदा चैव चा मोहिनी त्वरिता तथा स्तम्भिनी जृम्भिणी पूज्या कालिका पद्मबाह्यतः ज्वालामुखि क्रमम् चार्चे द्विषादि हरणं भवेद् इति श्रीगारुडे महापुराणे आचार्यकाण्डे अष्टनवत्यधिकशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् 199 नैन् भैरव उवाच अथ चूडामणिम् वक्ष्ये शुभाशुभविशुद्धये सूर्यम् देवीम् गणम् सोमस्मृत्वा दुभिलिखेन्नरः त्रिरेखा गोमूर्तृकाभ अथवा प्रश्रवाक्यदः दिश्यस्थानप्रसूदो वा ध्वजादीन् कणयेत्क्रमाद ध्वजो धूमोदसिंहश्च स्वा वृषरदन्दिनौ द्वाङ्क्षश्च अष्टमो ज्ञेयो नाम मन्त्रैश्च तान्यसेद् ध्वजस्थाने ध्वजं दृष्ट्वा राज्यचिन्ता धनाधिकं ध्वजस्तने स्थितो धूमो धातु चिन्ता चलाभकृत ध्वजस्थाने स्थिते सिंहे धनलाभाधिकं भवेद् स्थिते शुनिध्वजस्थाने दासीचिन्ता सुखादिकम् ध्वजस्थाने वृषम् दृष्ट्वा स्थानचिन्ता च लाभकम् ध्वजस्थाने करम् दृष्ट्वा दुःखक्लेशादिकम् भवेद ध्वजस्थाने गजम् दृष्ट्वा स्थानचिन्ता जयाधिकम् ध्वजस्थाने तदा ध्वांशे क्लेशचिन्ता धनक्षयः धूम्रस्थाने ध्वजं दृष्ट्वा पूर्वं दुःखं तदो धनं धूम्रे धूम्रं तदा दृष्ट्वा कलिदुःखाधिकं भवेद धूम्रस्थाने स्थिते सिंहे मनश्चिन्ताधनादिकं धूम्रस्थाने शुनिस्थिते जयलाभादिकं भवेद धूम्रस्थाने वृषं दृष्ट्वा नारी गोश्वधनाधिकं धूम्रस्थाने करं दृष्ट्वा व्याधिश्चापि धनक्षयः धूम्रस्थाने गजे दृष्टे राज्यलाभजयाधिकं धूम्रस्थाने स्थिते ध्वाङ्क्षे धनराज्यविनाशनं सिंहस्थाने ध्वजं दृष्ट्वा राज्यलाभादि निर्दिशद सिंहस्थाने स्थिते धूम्रे कन्याप्राप्तिर्धनाधिगम् सिंहस्थाने स्थिते सिंहे जयो मित्रसमागमः कौलेयके सिंहगदे स्त्रीचिन्ता ग्रामलाभगम् सिंहस्थाने वृषम् दृष्ट्वा गृहक्षेत्रार्थलाभगम् सिंहस्थाने गजम् दृष्ट्वा ग्रामस्वामित्वमेव ज सिंहस्थाने गजं दृष्ट्वा आरोग्यायुः सुखाधिगम् सिंहस्थाने स्थिते द्वांशे कन्या धान्यगुणाधिगं शूनस्थाने ध्वजं दृष्ट्वा स्थानचिन्तात् सुखाधिगं शूनस्थाने स्थिते धूम्रे कलहं कार्यनाशनं शूनस्थानस्थिते सिंहे कार्यासिद्धिर्भविष्यति स्थिते शूनिशूनस्थाने धननाशो भविष्यति शुनस्थाने वृषम् दृष्ट्वा रोगीरोगाद्विमुच्यते शूनस्थाने करम् दृष्ट्वा कलभस्य भयम् भवेद् शूनस्थाने गजम् दृष्ट्वा पुत्रभार्या समागमः स्वस्थाने झस्तिदे ध्वाङ्क्षे पीडा कुलनाशनम् वृषस्थाने ध्वजम् दृष्ट्वा राजपूजा सुखाधिकम् वृषस्थाने स्थिते धूम्रे राजपूजा सुखादिकम् वृषस्थाने स्थिते सिंहे सौभाग्यम् च धनादिकम् स्थिते शुनि वृषस्थाने बलश्रीकाम ईरितः वृषस्थाने वृषम् दृष्ट्वा कीर्तितुष्टिसुखाधिकम् वृषस्थाने करम् दृष्ट्वा महालाभादिकम् भवेद् पृषस्थाने गजं दृष्ट्वा स्त्री गजादिसमागमः पृषस्थाने स्थि ध्वाङ्क्षे स्थानमानसमागमः करस्थाने ध्वजं दृष्ट्वा रोगशोकाधिकं भवेद् करस्थाने स्थिते धूम्रे तस्करादिभयं भवेद् करस्थाने स्थिदे सिंहे पूजा श्री विजयाधिकं स्थिरे शुनिखरस्थाने सन्तापधननाशनम् करस्थाने वृषं दृष्ट्वा सुखं प्रियसमागमः करस्थाने करम् दृष्ट्वा दुःखी पीडादिनिर्दिशेद् करस्थाने गजम् दृष्ट्वा सुखपुत्रादिकम् भवेद् करस्थाने स्थिते ध्वाङ्क्षे कलको व्याधिरेव गजस्थाने ध्वजं दृष्ट्वा स्त्री जय श्रीसुख अधिकं गजस्थाने स्थिते धूम्रे धन धान्यसमागमः सिंहे जय सिद्धिसमागमः स्थिते शुनिगजस्थाने आरोग्यं सुखसम्पदः गजस्थाने वृषं दृष्ट्वा राजमानधनाधिकं गजस्थाने घरं दृष्ट्वा पूर्वं दुःखं तदस् सुखम् गजस्थाने गजम् क्षेत्र क्षेत्रधान्यसुखाधिकम् गजस्थाने स्थिरे द्वाङ्क्षे धनधान्यसमागमः द्वाङ्क्षस्थाने ध्वजं दृष्ट्वा कार्यनाशो भविष्यति द्वाङ्क्षस्थाने स्थिते धूम्रे कलिदुःखं गमिष्यति द्वाङ्क्षस्थाने स्थिरे सिंहे विग्रहो दुःखमेव द्वांशस्थाने स्थिते श्वाने गृहभङ्गभयाधिकं द्वांशस्थाने वृषं दृष्ट्वा स्थानभ्रंशभयादिकं द्वांशस्थाने करं दृष्ट्वा धननाश्च पराजयौ द्वांशस्थाने गजं दृष्ट्वा धनकीर्त्याधिकं भवेद द्वांशस्थाने स्थिते ध्वांशे विदेश्य गमनादिकम् ये श्री गारूे महापुराणे आचारकांडे नवनवतम ओं